मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं ट्वेण्टि सेवेन् सूर्यवालखिल्यसंवादसमाप्तिवर्णनम् श्रीगणेशाय नमः नरनारायण ऊ चतुः इत्यादिराजमाहात्म्यं वक्तुं नैव प्रशक्यते सर्वं मायामयं विद्धि मार्कण्डेय विशेषतः ब्रह्मणा पूर्णं विष्णुना पालितं तथा हरेण संहृतं सर्वं ब्रह्माण्डं मायया कृतम् अनन्तानि च सर्वत्र ब्रह्माण्डानि स्थितानि वै महाकारणरूपेण सन्धृता विद्धिमानद मायात्मकानि सर्वाणि ज्ञातव्यानि विशेषतः भ्रमनाशेन योगेन ज्ञायन्ते नात्र मनोवाणीमयं सर्वं भ्रमरूपं प्रकथ्यते मनोवाणीविहीनं वै तदेवं तादृशं मदं धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमेव भ्रमेण मायया योगिनां हृदि रामस्य चरितं पूर्णं कथितं ते समासतः। किम् श्रोतुमिच्छसि प्राज्ञ गमिष्यावो निजाश्रमं भानुरुवाच तयोर्वचनमाकर्ण्य मार्कण्डेयश्च तौ पुनः जगादप्रणदो भूत्वा योगार्थं पूर्णभावतः मार्कण्डेय उवाच नरनारायणौ देवौ भवद्भ्यां पाविदो ह्यहं कथां श्रुत्वा न मे तृप्तिर्जायते अदो गणेशयोगं मे पददं येन चाप्यहं रामवच्चान्तिमाश्रित्य ब्रह्मभूतो भवामि नरनारायणावोचददुः गणेशयोगमार्गं ते वदिष्यावत्सुयुक्तिदः न शक्तिस्तं वर्णयितुं मनसापि मुनीश्वर चित्तं पञ्चविधं विप्रतत्र चिन्तामणिष्ठितः पञ्चवृत्तिनिरोधेन ना लभ्यते नात्र संशयः भ्रान्तिदा सर्वभावेषु सर्वत्र संस्थिता भ्रान्तिधारकरूपा वै बुद्धिस्सा कथ्यते बुधैः तयोर्बिम्बं च यत्प्रोक्तं तदेव गणनायकः मोहयुक्तस्वभावेन खेलदे मुनिसत्तः बिम्बिभावं परित्यज्य भवत्वं गणनायकः अहं गणेशरूपश्च योगोऽयं शान्तिदायकः चित्तं पञ्चविधं त्यक्त्वा तदैश्वर्यं भ्रमात्मकम् अधुना गणनाधो वैत्वं योगेन भविष्यसि मनोवाणीमयं सर्वं गकाराक्षरवाचकं मनोवाणीविहीनं च नकारक्ध्यदे बुधैः तयोस्वामी गणेशानो वेदे पश्य महामुने तं भजस्व तदशान्तिं गच्छसि त्वं न संशयः यवमुक्त्वा वालकिल्यानरनारायणा वृषी विरेमतुरधैवं तं जानीतगणनायकं तौ प्रणम्य पुनः प्राह मार्कण्डेयः प्रतापवान् धन्योकं भवतोश्चैव दर्शनेन महामुनी मायां मोहकरीं नाद्धौ द्रष्टुमिच्छामि शाश्वतीं दर्शयेदं महामायां भगवन्तौ नमाम्यहं भानुरुवाच तथेदितं वालखिल्या ऊचदुर्मुनिसत्तमौ पश्यसि त्वं महामायां मार्कण्डेयनसंशयः आज्ञां प्रगृह्यतेनैव पूजितौ योगिनां वरौ ययद्वाश्रमं योगागाणपत्यौ महर्षयः ततः कदाचिद्विप्रेन्द्रो मार्कण्डे यस्व आश्रमे संस्थितो योगिनौ मायादर्शनलालसः तदो कस्मात् तदोकस्मात् महानादं समुद्भवं भयभ्रान्तो भवत्सोपि तदो मेखा जगर्जिरे हस्तिहस्तोपमाभिस्तेद्धाराभिर्ववृषुस्ततः मे खैस्तत्र जगत्सर्वं मज्जिदं पश्यदो मुनेः तदत्समुद्रजेनैव जलेन प्लावितं महत् सर्वं चराचरं तत्र बभ्राममुनिसप्तमः मत्स्यादिभिश्च विप्रेन्द्र किञ्चित् क्षतयुधकृतः सस्मारगणनाथं स तदो ददर्श तत्रैव वडपत्रस्थितं शिष्युम् अङ्गुष्टपर्वमात्रं स विष्णुं सर्वार्थदं परं तं प्रणम्य प्रदुष्ठावमार्कण्डेयो महर्षयः अथर्वशिरसा देवं सन्तुष्टं स चकारः स विप्रेन्द्रं किमिच्छसि महामुने वदतेहं प्रदास्यामि वरदो नात्र संशयः तं प्रणम्य तथोवाच मार्कण्डेयप्रसन्नधीः मायां दर्शय मे विष्णो तां ज्ञात्वा सन्त्यजाम्यहम् ततस्तं विष्णुरूपः स बालको भक्तियन्द्रितः जगादहास्यसंयुक्तो भक्तरक्षणतत्परः बालविष्णुरुवाच पश्यमायां महर्षे त्वं ज्ञानदृष्ट्या महामुने ज्ञान चक्षुर्मया दत्तं तुभ्यं भक्तिप्रभावदः मार्पण्डे यस्ततो विप्राज्ञानचक्षुःसमन्वितः मायामपश्यदानन्दान्नानाभावप्रकाशिनीं व्याप्यव्यापकरूपेण द्विजा सर्वत्र नानागुणविभेदेन मोहयन्ति नरान् सदा कुत्र ब्रह्माण्डनाशश्च कुत्र ब्रह्माण्डपालनं कुत्रोत्पत्तिश्च विप्रेन्द्रा दृश्यते तेन योगिना कुत्र शून्यमयं कुत्र पूर्णरूपं तथा ध्यानसंस्तं परं ब्रह्मददर्शमुनिसत्तमः कुत्र योगार्थमत्यन्तं नराः परमभाविकाः लिप्यन्ते कुत्र भोगार्थं मोक्षार्थं कुत्रचिद्विजाः पुनः पुनश्च सृज्यन्ते म्रियन्ते च पुनः ईश्वरानेश्वरा पुत्रप्रभवन्तीश्वरा नराः अमृतं विषरूपं च विषं चामृददायकं ददर्श तत्र विप्रर्षिसूर्यं शीतत्वमास्थितं स्थले जलं जले चैव स्थलं नानाविकारजम् मुक्तं नरं तथा बद्धं ददर्श मुनिसत्तमः नः प्रलेभे गतिं तत्रेश्वरो भ्रान्त्या ह्यनीश्वरः जगच्च जगदात्मा वै तदोत्सौ विस्मितोऽभवद एवं नानाविधं भावं ददर्श मुनिसत्तमः न शक्यते मया वक्तुं वर्षकोटिशतैरपि ततस्तं परितुष्टाव बालविष्णुं महामुनिः नानास्तोत्राय सुतुष्टं स प्रार्थयामा स्वभावतः निवर्तय हरे मायां कुरु मां पूर्ववद्यथा इति प्रार्थ स्थयमानं स चक्रे स्वेचाश्रमे स्थितं ततस्तत्र द्विजेन्द्रेण न दृष्टमिव तद्बभौ यथा स्वप्नगदं जन्तुर्नददर्शसमुद्धितः भयं दुःखं न बालरूपधरश्चैव न मायातेन विस्मितः बालकिल्यास्ततो विप्रस्त्यक्त्वा मायां भ्रमात्मिकां गणेशभजने सक्तो जपद्वै मन्त्रमुत्तमं नरनारायणाभ्यां ह्यः कथितो योग उत्तमः हे रम्भमन्त्रभावेन साधयामासतं पुनः रामेण साधितपूर्वं तथा तेनापि साधितः योगशान्तिप्रदपूर्णो गाणपत्यस्वभावदः योगशान्तिपरो भूत्वा भजत्तं गणनायकम् अनन्यचे दशासोऽपि मार्कण्डेयः सुयोगविद प्राप अन्दे गणेशदेह सामयुज्यप्रिद नाध विप्रा गणेशा संभवन्मृकुत्र चिदृण्ति पठे पठेतु तस्य वैमाया बंधो न प्रभवष्यति महोद भवदेव हेरंभाख्य प्रकीर्तितः विद्याधीशपुरे भक्तिसिद्धिदस्तत्र तिष्ठति अदोहं गणनाथं तं प्रभजे वालखिल्यकाः योगभावेन संसाध्यं कृत्वा भक्त्रिसमन्वितः मुद्गल उवाच एवं भोर्वचुत्वा प्रणेमोर्वालखिल्यकाः रविं सर्वत्र चात्मानं तुष्टुवुर्विविधैस्तवैः ऊजुः प्राञ्जलयस्तेतं भानुं सर्वप्रियं पुनः कृतकृत्या कृताभानो वयं देवनसंशयः किम् प्रदत्मो महात्मं स्वां देहोयं ते समर्पिदः तेन तुष्टो भवस्वामिन् गुरुरस्माकमादराद ततः सर्वे पुपूजस्तं वालकिल्यास्तपोधनाः प्रणम्य प्रययुस्ते वै तपस्ये वनमुत्तमं साधयित्वा यथा योगं श्रुतमत्र प्रजापदे योगिनः सर्ववन्द्यास्ते सं बभूवुर्विशेषतः हे रम्भं भजमानाश्च नित्यं ध्यानपरायणाः अनन्य बुद्ध यः सर्वे योगशान्तिं प्रलेभिरे हे रम्भाख्यावतारश्च महोदरकलात्मकः कथितस्ते प्रजापालनानाख्यानसमन्वितः एतादृशावताराश्च बहवस्तस्य मानद महोदरस्य तेषां यच्चरितं परमाद्भुतं नैव शक्यं कथयितुं संशयः अधः संक्षेपदप्रोक्तं मया दक्षप्रजापतेः सूर्यस्य वालकिल्यानां संवादः परमाद्भुदः ब्रह्मभूयप्रधप्रोक्तो धर्मकामार्थमोक्षदः प्रभवेत् स विशेषेण सर्वसम्पत्प्रदायकः मोहनाशकरः पूर्णश्रोतुमिच्छसि किं पुनः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सूर्यवालकिल्यसंवादसमाप्तिवर्णनं नाम सप्तविंशतितमोऽध्यायः ओम्